नात्मनात्मवतां मुख्य इयेष मधुसूदनः ब्राह्मीमाज्ञां पुरस्कृत्य हन्तुं हलधरानुजः जनमे जय उवाच किमर्थं वैरिणावास्तामुभौतौ कृष्णमागधौ कथं च निर्जितः सङ्ख्ये जरासन्धेन माधवः कश्च कंसोमागधस्य यस्य हेतोः स वैरवान् एतदाचक्ष्वमे सर्वम् वैशम्पायन यादवानामन्ववाये वसुदेवो महामतिः उदपद्यत वाष्णेयो ह्युग्रसेन उग्रसेनस्य कंसस्तु बभूव बलवान् सुतः ज्येष्ठो बहूनाम् कौरव्य सर्वशस्त्रविशारदः जरासन्धस्य दुहिता तस्य भार्यातिविश्रुता राज्यशुक्लेन दत्ता सा जरासन्धेन धीमता तदर्थमुग्रसेनस्य मथुरायाम् सुतस्तदा अभिषिक्तस्तदा मात्यैः स वै तीव्र पराक्रमः ऐश्वर्यबलमत्तस्तु स तदा बलमोहितः निगृह्य पितरम् भुङ्क्ते तद्राज्यम् मन्त्रिभिः सह वसुधेवस्य तत्कृत्यम् न शृणोति स मन्दधीः प्रीतिमांस तु दैत्येन्द्रो वसुदेवस्य देवकीम् उवाह स तदा दुहिता देव कस्य या तस्यामुद्वाह्यमानायाम् रथेन जनमेजया उपा रुरोह कंसो भूमिपतिस्तदा ततोऽन्तरिक्षेवागासीद्देवदूतस्य कस्यचित् वसुदेवश्च शुश्रावताम् वाचम् पार्थिवश्च सह यामेतम् वहमानोऽद्यकम् सोऽद्वहसि देवकीम् अस्या यश्चाष्टमो गर्भः मृत्युर्भविष्यति